अथाष्टषष्टितमः सर्गः तेषाम् प्रद्वचनम् श्रुत्वा वसिष्ठः प्रत्युवाचः नित्यजनान् सर्वान् ब्राह्मणाम् स्तानिदम् वचः यदसौ मातुलकुले परम् सुखी भरतो वसति भ्रात्रा शत्रुघ्नेन मुदान्वितः तच्छीघ्रम् जनादूता गच्छन् तु त्वरितम् हयैः आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् गच्छन्त्विति ततः सर्वे वसिष्ठम् वाक्यमब्रुवन् तेषाम् तद्वचनम् श्रुत्वा वसिष्ठो वाक्यमब्रवीत् एहि सिद्धार्थविजयजयन्ताशोकनन्दना श्रूयतामिति कर्तव्यम् सर्वानेव ब्रवीमिवः पुरम् राजगृहम् गत्वा शीघ्रम् शीघ्रजवैर्हयैः त्यक्तशोकैरिदम् वाच्यः शासनाद्भरतो मम पुरोहितस्त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः त्वरमाणश्च निर्याहि कृत्यमात्यैकम् त्वया माचास्मै प्रोषितम् रामम् मा चास्मै पितरम् मृतम् भवन्तः शंसिशुर्गत्वा राघवाणामितः क्षयम् कौशेयानि च वस्त्राणि भूषणानि वराणि च क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत तत्तपथ्यशनादूता जग्मुम् स्वम् निवेशनम् केकयांस्तेकमिष्यन्तो हयानारुह्य सम्मतान् ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् वसिष्ठेनाभ्यनुज्ञाता दूताः सन्त्वरितम् ययुः यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् देहास्ति न पुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखाययययुः पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् सरांसि सुफुल्लानि नदीश्च नरीक्षमाना जग्मुस्ते दूताः कार्यवशादृतम् ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् उपाधिजग्मुर्वेगेन शरदण्डाम् जलाकुलाम् निकोलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशम् पुरीम् अभिकालम् ततः पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् अवेक्ष्याञ्जलिपानाम् श ब्राह्मणान् वेदपारगान् यजुर्मध्येन वाल्लीकान् सुदामानम् च पर्वतम् विष्णोः पदम् प्रेक्ष्यमाणापिपाशान् चापिशाल्मलीम् नदीर्वापी तडाकानि पल्वलानि सरांसि च पश्यन्तो विविधांश्चापि सिंहान् व्याघ्रान् मृगान् विपान् ययः पथाति महता शासनम् भर्तुरीप्सवः ते श्रान्तवाहनादूता विकृष्टेन सता पथा गिरिव्रजम् पुरवरम् शीघ्रमासे दुरञ्जसा भर्तुः प्रियार्थम् अहेळमाना स्फरया स्म दूता रात्र्यान्तु ते तत्पुरमेव इत्यार्षे श्रीमद् रामायणे